चषशोऽध्यायः ध्यानम् ओम् नागाधीश्वरविष्टराम् फणिफणोत्तम् सोरुरत्नावली भास्वद्देहलताम् दिवाकरनिभाम् नेत्रत्रयोद्भासिताम् मालाकुम्भकपालनीरजकराम् चन्द्रार्धचूडाम् पराम् सर्वज्ञेश्वरभैरवाङ्कनिलयाम् पद्मावतीम् चिंतये ओम् ऋषिरुवाच इत्याकर्ण्यवचो देव्याः सदूतो मर्षपूरितः समाजष्टसमागम्य दैत्यराजाय विस्तराते तस्य दूतस्य तद्वाक्यमाकर्ण्या सक्रोधप्राह ततः धूम्रलोचनम् हे धूम्रलोचनाशत्वम् स्वसैन्यपरिवारितः तामानयबलाद्दुष्टाम् एषा दर्शनविह्वलाम् तत्परित्राणरः कश्चिद्यदि वोत्तिष्ठते परः स हन्तव्यो मरो वापि यक्षोगम् धर्व एव वा ऋषिर्वाच तेनाज्ञप्तस्ततः शीघ्रम् सदैत्यो धूम्रलोचनः वृतःषष्ट्यासहस्राणा असुराणाम् द्रुतम् ययौ स ततो देवीम् तुभिनाचलसंस्थिताम् जगादोच्चैः प्रयाहीति मूलं शुम्भनि शुम्भयोः न चेत् प्रीत्याद्य भवती मद्भर्तारमुपैश्यति ततो बलानयाम्येष केशाकर्षणविह्वलाम् देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेव ततः किम् ते करोम्यहम् ऋषिर्वाच इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः हुङ्कारेणैव तम् भस्मसाचकाराम्बिका ततः अथ क्रुद्धम् महासैन्यमसुराणाम् तथाम्बिका पवर्षसायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ततोऽधुतसतः कोपात्कृत्वानादम् सुभैरवम् पपातासुरसेनायाम् सिंहो देव्या स्ववाहनः कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् आक्रम्य चाधरेणान्यान् केषाञ्चित्पाटयामासनकैः कोष्ठानि केसरी तथा तलप्रहारेण शिरांसि कृतवान्पृथक् विरिच्छिन्नबाहुशिरसः कृतास्तेन तथा परे पपौ चरुधिरम् कोष्ठादन्येषाम् धुतकेसरः क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना तेन केसरिणा देव्यावाहनेनातिकोऽपि न श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् चक्षयितम् कृत्स्नम् ततः चुगोपदैत्याधिपतिः शुम्भः प्रस्फुरिताधरः आज्ञापयामासजतौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्डबलैर्बहुभिः परिवारितौ तरत्र गच्छत च सासमानीयताम् लघु केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि तदा शेषायुधैः सर्वैरसुरैर्विनिहन्यताम् तस्याम् हतायाम् दुष्टायाम् सिंहे च विनिपातिते शीघ्रमागम्यताम् बद्ध्वा गृहीत्वा तामथाम्बिका ओ इति, इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये शुम्भनि शुम्भसेनानी धूम्रलोचनवधो नाम षष्ठोऽध्यायः